हरि ओम् श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमध्यात्म रामायणे सुन्दरकाण्डे पञ्चमः स्वर्गः श्रीमहादेव उवाच ततः श्रीतां नमस्कृत्य हनुमानब्रवीत्व च अज्ञापयतु भवती रामसन्निधिं गच्छामि राम आगमिष्यति सानुजः इत्युक्त्वा त्रि परिक्रम्य प्रयान किम् प्रणम्य पसितो गन्तुम् इदम् वचनमब्रवीत् देवे गच्छामि भद्रम् ते पूर्णं द्रक्षसि राघवम् लक्ष्मणं च स सुग्रीवम् वानरायुतकोटिभिः हनुमन्तम् जानकी दुःखकर्चिता त्वं दृष्ट्वा विस्मृतम् दुःखम् इदानीं त्वं गमिष्यति इतः कथं वर्ते रामवार्ता श्रुतिं विना मारुति उवाच यद्येवं देवि मे स्कन्धम् आरोह क्षणमात्रतः रामेण योजयिष्यामि मनस् यदि जानकी सीतावाचर रामः स्वागरमाशोष बद्ध्वा वाचर आगत्य वानरैः सार्धं हत्वा रावणमाहवे मां नये यदि रामस्य कीर्तिर्भवति शाश्वती अतो गच्छ कथं प्राणान् सन्धारयाम्यहम् इति प्रस्थाय पितो वीर ीतया प्रणिपत्यताम् जगामय पर्वतस्याग्रे गन्तु तत्र गत्वा महासत्वे पादाभ्यां पीडयन् गिरिं जगामये वायुवेगेन पर्वतश्च महीतलम् गतो मही समानत्वं त्रिञ्चिद्भ्योजनमुच्छ्रितः मारुति ऋगणान्तस्थ शब्दं चकारस, तं श्रुत्वा वानरा सर्वे ज्ञात्वा मारुतिमागतम् हर्षेण माता विष्ट शब्दं च कुर्मः स्वनम् शब्देनैव विजानीमः कृतकार्यः समागतः हनुमानैव पश्यदम् वानर शभम् एवम् ब्रुवत्सु वीरेषु वानरेषु समारुतिः अवतीर्य गिरे वानरा निदमब्रवीत् दृष्टा सीतामया लङ्का च सकनना सम्भाषितो रजग्रीव ततोऽहं पुनरागतः इदानीमेव गच्छामो राम सुग्रीवसन्निधिम् इत्युक्ता वानरा सर्वे ह चेनालिङ्ग्यमारुतिम् केचिच्च चुम्बुर्लाङ्गूलम् न नृतु केचिदुत्सुकः हनुमता समेता ते जग्मु गच्छन्तो ददृशुर्वीर वनं सुग्रीव रक्षितं वधुसन्ध्यं तदा देहामते भक्षयाम फलान्यद्य पिबा मोहम् मृतवन्मधु सन्तुष्टारागमं द्रष्टुम् गच्छामो देव सानुजम् अङ्गद उवाच हनुमान् कृतकार्योऽयं पिपतैतप्रसादतः यक्षध्वं फलमूलानि त्वरितं हरिसत्तमः ततः प्रविश्य हरयः पातुमारेभिरे मधु रक्षिण तान्नादृत्य दधि वक् नोदितान् पिबते ताडयामासु वानरान् वानर शभ ततस्तान् मुष्टिभिः पादे चूर्दयित्वा पपुर्मधु ततो दधि मुख क्रुध सुग्रीवस्य समातुलः जगाम यत्र राजा कपीश्वरः श्रुत्वा दधि मुखे नोक्तम् सुग्रीवो हृष्टमानसः दृष्ट्वा गतो न सन्देह सीताम् भवननन्दनः नो, नो चेन्मधुवनं द्रष्टुं समर्थको भवेन्म तत्रापि वायुपुत्रेण कृतं कार्यं न संशयः श्रुत्वा सुग्रीवचनम् दृष्टो रामस्तमब्रवीत् किमुच्यते त्वया राजम् वचसि ता कृथान्वितम् सुग्रीव स्वब्रवीत् देव दृष्टा वने सुता हनुमयत् प्रमुखा सर्वे प्रविष्टा मधुकाननम् भक्षयन्ति स्म सकलं ताडयन्ति स्म दक्षिणः अकृत्वादेव कार्यम् ते द्रष्टुम् मधुवनम् मम न ततो देवी दृष्टासीतेति निश्चितम् दक्षिणो वा भयम् मातुः गत्वा गृहतममाज्ञया वानरानङ्गनमुखान् आनयद्धम् ममान्तिकम् श्रुत्वा सुग्रीवचनम् गत्वा ते वायुवे हनुमत् प्रभुन् गच्छते नो च गच्छतेश्वरशासनात् द्रष्टुमिच्छति सुग्रीव स रामो लक्ष्मणान्वितः युष्मानतीव हृष्टासे त्वरयन्ती महाबलः तथेष्टम्बरमासाद्य ययोस्तेवानरोत्तमः हनुमन्तम् पुरस्कृत्य युवराजम् तथाङ्गदम् रामः सुग्रीवयोरग्रे निपेतुर्भुवि सत्वरम् हनुमान् राघवम् प्राहे दृष्टा सीता निरामया साष्टाङ्गम् प्रणिपत्याग्रे रामम् पश्चाधरीश्वरम् कुशलम् प्राह राजेन्द्र चाणक्य त्वां शुचान्विता अशोक वनिका मध्ये हिंसपामूलमाश्रिता राक्षसीभिः परिवृता निराहार कृशा प्रभो हा राम रामेति शोचन्ते मलिलाम्बर एकवेणी मयादृष्टा दृष्टा शनैः आश्वासिता शुभा वृक्ष शाखान्तरे सूक्ष्मरूपेण ते कथाम् जन्मारभ्य तवात्यर्थं दण्डकमनन्तर दशानेन हरणम् जानक्या रहिते त्वयि सुग्रीवेण यथा मैत्री कृत्वा वालिनिबर्हणम् मार्गणार्थं च वैदेह सुग्रीवेण विसर्जिता महाबला महासत्वा हरयोजित काशिनः गता सर्वत्र सर्वे वै तत्र कोऽहं ह्यागतः अहम् सुग्रीव सचिवो दासूहम् राघवस्य हि दृष्टा यज्जानकी भाग्यात् प्रयास फलितोद्यमे इति उदीरितमाकर्ण्य सीताविस्फारिते क्षणा केन वा कर्णपीयूषम् श्रावितम् एषु यदि सत्यं तदा यातु मद्दर्शनपथम् तु सः ततोहं वानराकार सूक्ष्मरूपेण जानकिम् प्रणम्य प्राञ्जलिर्भूत्वा दूरादेव स्थितप्रभो पृष्टोऽहं सीतया कर्तुम् इत्यादि बहुविस्तरम् मया सर्वं क्रमेणैव विज्ञापितमरिन्दम पश्चात् मया अर्पितं देवी भवदत्ताङ्गुलीयकम् तेन मा वचनम् चेदमब्रवीत् यथा दृष्टास्मि पीडिमाना दिवानिशम् राक्षसीनां स सर्वं सर्वम् कथय राघवे मयोक्तम् देवि रामोऽपि तच्चिन्ता परिनिष्ठितः परिशोच्यत्य रात्रम् तद्वा तान्नाभिगम्यस इदानीमेव गत्वाहं स्थितिम् रामायते रामश्रवणमात्रेण सुग्रीवेण स लक्ष्मणः वानरानेकप्रसादम् आगमिष्यति तेन्दिकम् रावणम् सकुलम् हत्वा नेष्यति त्वाम् सखम् पुरम् देहि मे यथा माम् विश्वसेद्विभु इत्युक्ता स शिरोरत्नम् चूडापाशि स्थितम् प्रियम् काकेन यद्वृत्तम् चित्रकूट गिरो पुरः तदप्याहास्तु पूर्णाक्षी कुशलं ब्रूहि राघवम् लक्ष्मणम् ब्रूहि दुरुक्तं किञ्चित् पुराय तत्क्षमस्वान्यभावेन भाषितम् कुलनन्दनाय तारयेन्मां यथा राम तथा कुरु कृपान्विता इत्युक्त्वा रुदती सीता दुखे न मृत मैयाश्वासी रात सर्वे ते तथ प्रस्थ पिछ राम सीपागतमन वेलाया अशोक वनिका प्रिया उत्पाट्य राक्षस त्र बहून हवा क्षण रावण हत्वा, सुतना भी रामेण रावणेनाविभाष्यत लङ्कामशेषतो दग्ध्वा पुनरप्यायमं क्षणा श्रुत्वा हनुमतो वाक्यम् रामोऽत्यन्त प्रहृष्टधि हनुमन्ते कृतम् कार्यम् देवैरपि सुदुष्करम् उपकारम् न पश्यामि तव प्रत्युपकारेण इदानीम् ते सर्वस्वं मम मात्यालिङ्ग्य समाकृष्य गाढम् वानरपुङ्गवम् सादरनेत्रो रघुश्रेष्ठे परां प्रीतिम् वाचेदम् राक्षसो भक्तवत्सलः परिरम्भो हि मे लोके दुर्लभे परमात्मनः अत सं मम भक्तोऽसि प्रियोऽसि हरिपुङ्गव यत्पादपन्नयुगलम् तुलसीदलाद्यै सम्पूज्य विष्णुपदवीम् अतुलाम् प्रयान्ति तेनैव किं पुनरसु परिरब्धमूर्ति रामेण वायुतनय कृत इति श्रीमितध्यासरामायणे उमामहिकृतंवादे सुन्दरकाण्डे पञ्चमः सर्गः समाप्तमिति <clears throat> मन सुन्दरकाण्डम् श्रीसीतारामचन्द्रार्पणमस्तु